अथ द्वितीयोऽध्यायः भीमसेन उवाच पौरोगवो ब्रुवाणोऽहं वल्लवो नाम उपस्थास्यामि राजानम् विराटमिति मे मतिः सूपानस्य करिष्यामि कुशलोऽस्मि महानसे कृतपूर्वाणि यान्यस्य व्यञ्जनानि सुशिक्षितैः तान्यप्यभिभविष्यामि प्रीतिम् सञ्जनयन्नहम् आहरिष्यामि दारूणाम् नितयान्महतोऽपि च यत्प्रेक्ष्य विपुलम् राजा संयोक्ष्यते समाम। माम् अमानुषाणि कुर्वाणस्तानि कर्माणि भारता राज्ञस्तस्य परे प्रेष्या मंस्यन्ते माम् यथा नृपम् भक्ष्यान्नरसपानानाम् भविष्यामि तथेश्वरः द्विपावाबलिनो राजन्वृषभा वा तानहं हि नियोत्स्यामि रतिं तस्य विवर्धयन् नत्वेतान् युध्यमानान्वयि हनिष्यामि कथञ्चन तथैतान् पातयिष्यामि यथा यास्यन्ति न क्षयम् अरालिको गोविकर्ता सूपकर्ता नियोधकः आसं युधिष्ठिरस्याहमिति वक्ष्यामि पृच्छतः आत्मानमात्मना रक्षंश्चरिष्यामि विशाम्पदे इत्येतत्प्रति जानामि व्यहरिष्याम्यहं यथा